श्रीनवतितमोऽध्यायः पृच्छामि त्वां वसुमानौषधस्विर् यद्यस्ति लोको दिवि मे नरेन्द्र यद्यन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ययातिर्वाच यदन्तरिक्षं पृथिवी दिशश्च यत्तेजसा तपते भानुमांश्च लोकास्तावन्तो दिवि संस्थिता वै तेनान्तवन्तः प्रतिपालयन्ति तां स्ते ददानि येमे लोकास्तवते वै भवन्तु क्रीणीष्वैतांस्तृणकेनापि राजन् प्रतिग्रहस्ते यदि धेमन् प्रदुष्टः ययातिरुवाच न मिथ्याहम् विक्रयं वै स्मरामि वृथा गृहीतम् शिशुकाच्छङ्कमानः कुर्यां न चैवाकृतपूर्वमन्यैर्विधित्समानः किमु तत्प्रसाधु वसुमानुवाच तांस्तवम् लोकान् प्रतिपद्य स्वराजन् मया दत्तान्यदि निष्टक्रयस्ते अहम् न तान् वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तवते वै भवन्तु पृच्छामि त्वाम् शिबिरौषी नरोऽहम् ममापि लोका यदि सन्ति हतात यद्यन्तरिक्षे यदि वादिविश्रिताः क्षेत्रज्ञम् त्वाम् तस्य धर्मस्य मन्ये ययातिरुवाच यत्त्वम् वाचा हृदयेनापि साधून् परीप्समानान्नावमंस्था नरेन्द्र तेनानन्तादिविलोकाश्रितास्ते विद्युद्रूपाः स्वनवन्तो महान्तः शिबिरुवाच तांस्त्वम् लोकान् प्रतिपद्य स्वराजन् मया दत्तान्यदिनेष्टक्रयस्ते न चाहम् तान् प्रतिपत्स्येह दत्त्वा यत्र गत्वा नानुशोचन्ति धीराः ययातिर्वाच यथा त्वमिन्द्रप्रतिमप्रभावस्ते चाप्यनन्ता नरदेवलोकाः तथाद्यलोके नरमेण्यदत्ते तस्माच्छिबेनाभिनन्दामि देयम् अष्टकौ न चेदेकैकशो राजन्लोकान्नः प्रतिनन्दसि सर्वे प्रदाय भवते कन्तारो नरकं वयम् यदर्होऽहं तद्यदध्वम् सन्तः सत्याभिनन्दिनः अहं तन्नाभिजानामि यत्कृतम् न मया पुरा अष्टकौ वाच कस्यैते प्रतिदृश्यन्ते अथाः पञ्चहिरण्मयाः यानारुह्यनरो लोकान् अभिवाञ्छति शाश्वतान् युष्मानेते वहिष्यन्ति रथाः पञ्चहिरण्मयाः उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखायव वैशम्पायनौ वाच एतस्मिन्नन्तरे चैव माधवी तु तपोधना मृगचर्मपरीताङ्गि परिणामे मृगव्रतम् मृगैः सहचरन्ती सा मृगाहारविचेष्टिता यज्ञवाटम् मृगगणैः प्रविश्य भृशविस्मिता आघ्रायन्ति धूमगन्धम् मृगैरेव चचारसा यज्ञवाटमठन्ती सा पुत्रांस्तानपराजितान् पश्यन्ती यज्ञमाहात्म्यम् मुदम् लेभे च माधवी असंस्पृशन्तम् वसुधाम् ययातिम् नाहुषम् तदा दिविष्ठम् प्राप्तमाज्ञाय ववन्दे पितरं तदा ततो वसुमनाः पृच्छन् मातरं वैतपस्विनीं। तपस्विनीम् वसुमना उवाच भवत्या यत्कृतमिदम् वन्दनम् वरवर्णिनि राजा यदिजानासि मे वद माधव्युवाच शृणुध्वम् सहिताः पुत्रा नाहुषोऽयम् पिता मम ययातिर्मम पुत्राणाम् मातामह इति श्रुतः पूर्वम् मे भ्रातरम् राज्ये समावेश्य दिवम् गतः केन वा कारणेनैव यः प्राप्तो महायशाः वैशम्पायनो वाच तस्यास्तद्वचनम् श्रुत्वा स्थानभ्रष्टेति चाब्रवीत् सा पुत्रस्य वचः श्रुत्वा सम्भ्रमाविष्टचेतना प्राह दौहित्रपरिवारितम् माधव्युवाच तपसा निर्जिताल्लोकान् प्रतिगृह्णीष्वमामकान् पुत्राणामिव पौत्राणाम् धर्मादधिगतम् धनम् स्वार्थमेव वदन्तीह ऋषयो वेदपार्गाः दानेन तपसा अस्माकं दिवमाव्रज ययातिरुवाच यदि धर्मफलम् येतच्छोभनम् भविता तथा दुहित्रा चैव दौहित्रैस्तारितोऽहम् महात्मभिः तस्मात्पवित्रम् दौहित्रमद्य प्रभृति पैतृके भविष्यति न सन्देहः पितृणाम् प्रीतिवर्धनम् त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः त्रीणि चात्र प्रशंसन्ति सौचमक्रोधमत्वराम् भोक्तारः परिवेष्टारः श्रावितारः पवित्रकाः दिवसस्याष्टमे भागे मन्दी भवति भास्करे सकालः नाम पितृणाम् लब्ध्वा पात्रम् तु विद्वांसम् श्रोत्रियम् सुव्रतम् शुचिम् सकालः कालतो दत्तम् नान्यथा काल इष्यते वैशम्पायनो वा च एवमुक्त्वा ययातिस्तु पुनः प्रोवाच बुद्धिमान् द्वे ह्यवभृतस्नातास्वरध्वम् कार्यगौरवात् अष्टकौ वाच वयमप्यनुयस्यामो यदा भविष्यति ययातिर्वाच सर्वैरिदानीम् गन्तव्यम् सह वयम् एष नो दृश्यते देवसम्मनः वैशम्पायनौ ते तेधिरुह्यरथान् सर्वे प्रयातानुपसत्तमाः आक्रमन्तो दिवम् धर्मेणा वृत्त्यरोदसि अष्टकश्च शिविश्चैव काशिराजः प्रतर्दनः ऐक्ष्वाकवो वस्मनाश्चत्वारो भूमिपाश्च सर्वे ह्यवभृतस्नाताः स्वर्गताः साधवः सह अहम् मन्ये पूर्वमेकोऽस्मि गन्ता सर्वथा मे महात्मा कस्मादेवम् शिबिरोशीनरोऽयम् एकोत्यगात् सर्ववेगेन वाहान् ययाति उवाच अददत् देवयानाय यावद्वित्तमविन्दत उशीनरस्य पुत्रोऽयम् तस्माच्छ्रेष्ठो हि वशिभिः दानम् तपःसत्यमथापि धर्मो ह्री क्षमा सौम्यमथो विधिंसा राजन्नेतान्यप्रमेयाणि राज्ञः शिबेः स्थितान्यप्रतिमस्य बुद्ध्या एवम् तस्माच्छिविरत्यगात् वैरथेन वैशम्पायनो वाच अथाष्टकः पुनरेवान्वपृच्छन् मातामहम् कौतुकेनेन्द्रकल्पम् पृच्छामि त्वाम् नृपते ब्रूहि सत्यम् कुतश्चासितश्चकस्य कृतम् त्वया यद्धि न तस्य कर्ता लोकेन्वदन्यक्षत्रियो ब्राह्मणो वा ययातिरुवाच ययातिरस्मिन्नहुशस्य पुत्रः पुरोः पिता सार्वभौमस्त्हासम् गुह्यञ्चार्धम् मामकेभ्यो ब्रवीमि मातामहोऽहम् भवतां प्रकाशम् सर्वामिमाम् पृथिवीम् निर्जिगाय प्रादामहम् चादनं ब्राह्मणेभ्यः मेध्यानश्वानेकशतान् स्वरूपांस्तदा देवाः पुण्यभाजो भवन्ति अदामहम् पृथिवीम् ब्राह्मणेभ्यः पूर्णामिमाखिलाम् वाहनेन गोभिः सुवर्णेन धनैश्च मुख्यैस्तदा ददम् गाश्चतमर्पुदानि सत्येन वैद्यौश्च वसुन्धरा च तथेवाग्निर्ज्वलते मानुषेषु न मे वृथा व्याहृतमेव वाक्यम् सत्यम् हि सन्तः प्रतिपूजयन्ति यदष्टकप्रब्रवीमि हि सत्यम् प्रतर्दनम् चौषधस्विम् तथैव सर्वे च लोका मुनयश्च देवा सत्येन पूज्या इति मे यो नः स्वर्गजितः सर्वान् यथावृत्तम् निवेदयेत् अनुसूयुद्विजाग्रेभ्यः सलभेन्नः सलोकताम् वैशम्पायन उवाच एवम् राजा समात्मा ह्यतीव स्वैर्दौहित्रैस्तारितो मित्रसाहः त्यक्त्वा महीः परमोदारकर्मा स्वर्गम् गतः कर्मभिर्व्याप्य पृथ्वीम् इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि उत्तरयायात समाप्तौ